देवासुरा संयत्तासं ते देवाभिजमुपजन्तोष्यति रुद्रस्य रुद्रत्वं हिरण्यमभवत् अस्माद्रिरण्यम पुनराधे केवलमित्यब्रुवन्त्यब्रवेज्य मध्ये नोषार्थस्मात्मसपत्सम् ष्टा धदे धत्पष्टाध्यात्तस्माष्ट्राः पशवमुच्यं देदं मनुराधत्तदेन मनुराध्यात्तस्मान् मानव्यः प्रजामुच्यं देदं धाता धत्तते न धातार्धवत्सरो विधाता तस्मात् संवत्सरं प्रजाः पशवो प्रजागं देदेवं पुनरार्जय सिं मे दध्नाद्येवयोस्य धुमान् भवति भागे जम्बा अग्निराहित गच्छमानप्रजां वजो निजमानस्वादो न्तिवाेषा पुनर्वस्वो that day वादेश यज्ञं वशो नवपतियो अग्निमुद्वासगते पञ्चगपालः पुरोणाश भवति पान्तो यज्ञः पाङ्गा पशवो यज्ञमेव पशो नवरुन्धेवीरहावादेश देवानां योः अग्निमुद्वासगते नवदे तस्य ब्राह्मणायतायवः पुरान्नमक्षन् पञ्चो याज्ञवाक्या भवन्ति पान्दो यज्ञः पान्तः रण्यरपदायाग्निं पुनराधत्ते सदाक्षरा भवन्ति सदा युःपुरुषे वें नृजे प्रतिष्ठति यद्वा अग्निराहितो ने ज्याजोगन्यकामयमानो यदाग्नेजुं सर्वं भवति सैवास्यर्धवादे तस्य गृहे माक्ष्यते योग्निमुद्वासयते सवाचकं सगं सृष्टा न्यजमानयेश्वरो भक्तजो भवत्यैमानस्यापराभावाच विभक्तिं कर विब्रह्मैव तदकरुपागुंसु यजति कथा वा मं वसुभिधानो गोहति कादृगेव वा मं वसुभिधानः प्रकाशं दिगमिषति भितः पुरोणाचमेते आहुतेजुहोदिगजमानमेवो भयतः पशुभिः परिगृह्णादिगतयजुः संहृत सम्भारमित्याहर्ण संहृत्या सम्भारा न यजुः कर्तव्यमित्यसो खलु संहृत्या सम्भाराः कर्तव्यम् गजरुजज्ञस्य समृद्धे पुनर्निष्कुलो रसोदक्षिणा पुनरुच्छ्रोदम् समृद्धे सप्तते अग्नेहमिधः सप्त जिह्वालित्यग्निहोत्रम् जोहोदृगत्रगद्रैवास्य देवै नमवरुी रहा वा देशदेवानाञोःभासदेवस्य वरुणदेवर्णयाहावारुणमेकादशगवालवनल्मेवम् चैवहम् तिगस्याहास्य नयात्तौ भागधेदेन प्रेणा ऋनागजमानः धूमेद्भूम् नाद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यनिधे देव ज्ञमन्नादमन्नाद्याजादधथे भायङ्गौ कृष्णिरक्रमे दसनम् मातरम् पुनः पितरम् च प्रजन् सुवः पुंश्रद्धामविराजधिमाग्मदङ्गायशिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपा नद्यम् दश्चरतिलोचना जघम् महिषः सुवः यत्त्वा क्रुद्धः परोपपमन्युनायलवत्या सुकल्पमन्ये दत्तवस्त्वद्दीपयामसि यद्येव मन्युपरोक्तस्य पृथिवीमनुदध्वसे समापरन् मनो ज्योज्जुषतामाज्यम् यच्छन् नै यज्ञकं समिमं दधातु बृहस्पतिस्तनुदामिमम् नो विश्वे देवादिहमाजन्ता अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्तधामप्रियाणि सप्तहोत्राः सप्त पुनर्नवाहि विश्वतः सह रय्या निवर्तस्वाज्ञे बिन्वस्वधारया विश्वप्सुया विश्वतस्परे एकस्सलेकः सुलेखस्तेन आदित्या आज्यञ्जुषाणाभिजम् तु केतस्स केतस्सु केतस्तेन आदित्या आज्यञ्जुषाणाभिजम् तुमिव स्वागुम् अदितद्देव ज्योतिस्तेन आदित्या आज्यञ्जुषाणाभियम् तु भो विद्भोम्नाद्योर्वर्णेत्याहासिशैवे नमाधत्ते सत्पा वैजीर्जन्तोम्यन्त सज गङ्गे रः कार्घवेजो मन्त्रमपश्च वेद जीर्णास्तनोरपाघ्रदसर्पराज्ञाभ्यङ्गारः पाद्यमादधामेवै न भजलं कृत्वा धत् यथोपोतमेव पृथिवे मन्नार्जन्नपानमच्छैतं मन्त्रमपशत्ततो वेदान मुपानमद्यत्सत्पराज्ञानस्याध्यासो अस्यामेवैन प्रतिष्ठितमाधत्ते जत्वा क्रुद्धः परो ममेत्याह बन्धृतरेव स्मेतपरस्त्वन्देवयामसेत्याः समिन्धदेवैनैते भन्युपरोक्तस्येत्याह देवताभिरेवैनसंहरति दे दे विवारे तस्य जज्ञश्छिद्यते बृहस्पतिवत्यर्चोपतिष्ठते ब्रह्म दे वै देवानां बृहस्पतिर्ब्रह्मणैव यज्ञकं सन्दधा दिविच्छन्मै यज्ञकं संयन् दधाह सन्दत्यै विश्वे देवा इहमादयन्ता मित्याह सन्धत्यैव यज्ञं देवेभ्यो य्येत्यभितः पुरोणार्जा च लय्या च भजतः परिगृह्णात्यादित्यास्माल्लोकादमगमागन्तेमस्मिन् लोके यदृश्यन्त युवं लोकं पुनरब् भवेत्या पराधेनं पुनराधेजादग्नि दित्यारुद्धिमार्धमन्तामेव ध्नाति उपप्रयन्तो अध्वरम् मन्त्रम् वोधे माग्नदे आरे अस्मै च शृण्वते अस्य प्रत्नामनुद्युतकम् शुक्रम् तु दुःखे अक्षरः अग्रः सहस्रसामृषिम् अग्निर्मोर्धादिवः कगुत्पतिः पृथिव्या अयम् अपागम् रेतागम् अयमिह प्रथमा धाति धातृभिज होदाष्ठो हरेश्वेयः यमाप्लवान भृगोविदरुचुर्वनेषु चित्रम् विभुवम् विचे विचे भावामिन्द्राग्ने आहुवध्या भारा सहमादयुध्यै भादाताराविषागम् रजेणामुभावा यस्य सातजे हुवेवा अयम् तेजो निर्वित्वियोजतो जातो अलोचथाः जानन्नग्न आरोहाधानो वर्धया रजम् स्वर्नायोगम् शिपवसहा सुवोर्जमिषञ्जनः भारे बाधस्वदुच्छुनाः आग्नेपः स्वस्व प अस्मे वर्तः सुहीर्यम् दध पोषकौ रजम् मयि अग्ने पावकरोचषा मन्द्रजा देवजिह्वजा आदेवानिपक्ष्यजक्षिजा सनः पावकदे दिवोऽग्ने देवागम् विहावः उपजज्ञगम् हविश्चनः अग्न्यः सु च व्रततमश्रु चर्विप्रः शुचे रोचद आहुतः पुरग्ने सुस्तव शुक्राभ्राजन्दरे तव आयुर्दा अग्ने स्याजुर्मे देहि वर्चोदा अग्नेऽसि वच्चो मे देहि तनोपा अग्नेऽसि जम् मे पाह्यग्ने जन्मे तनुवा भो नन्दन्महाभृणचित्रावसो स्वस्ति देवमशीदे स्वाशतगुम् हिमाध्युमन्तः समिधेव हि वयस्वन्तो वयस्कृतम् यशस्वन्तो अग्ने सपत्मदम्भनम् वरिशिष्ठे अधिनागे सन्तमग्ने सूर्यस्य वर्चसा कथा संमृतेनागस्तुतेन सम्मृजेण त्वमग्ने सूर्यवर्चा असि सम्मायुषा वर्चसा प्रजयासिजा सम्प्यामि प्रजा हमिरप्रजसो मानवेः सर्वा भवन्तु गृहे म्भस्ताम्भो वक्षे दमहस्तभो वो भक्षे दसहस्तसहो वो भक्षेर्जस्थोर्जं वक्षे जले मधेरमध्वमस्मिन् लोकेऽस्मिन् क्षयेऽस्मिन्हिताश्वमोर्जाविषागौ पत्येनाभाजस्पोषेण सहस्रभोषं वः पुष्यासंमयिभो राजश्रयम् ने दिवे दिवे दोषावस्तर्ध्यजा वयम् नमो भरम् दरेमसि राजम् दमद्धराणाम् गोपाकृतस्य जीदिभिम् वर्धमानग्निस्वेदमे स न हिदेव सोनवेऽग्ने सोपायनो भव सारस्वस्तदे अग्ने त्वम् नोऽमः भुतत्राता शिवो भववरोच्यः तम्पाशो तिष्ठदे दिवः सुम्नाय नो न मे महे सखिभ्यः वसुरग्निर्वसुश्रवाः अनक्षानक्षद्युपत्तमोरयिन्दाः कूर्जावः पश्याम्योर्जामापश्यत राजस्पोषेण वः पश्यामि राजस्पोषेण सहस्रकोषम् बः पुष्यासम्मरिवो राजश्रयन्ता तत्सवितुर्वले भर्गो देवस्य धीमहि द्विजानः प्रचोदयात् सोमानग्रस्मरणम् गृणहि ब्रह्मणस्पते कक्षेमन्तैज औषिजम् कदाचनस्तलेलिनेन्द्रसश्च सिधासुषे उपोपेन्वमखबन्धो युतेदानम् देवस्य पृच्छते पयत्वाग्ने पुरम् भजम् विप्लगुम् सहस्य धीमहि धिषद्वर्णम् दिवे दिवे धेत्तारम्भम् गुरावदः अग्ने गृहपदे सुगृहपतिरहन्तजा गृहपतिना भोजासकम् सुगृहपतिर्वजा त्वम् गृहपतिना भोजाशतकम् हिमास्तामास शमासा ेषजो सामोपप्रयन्तो अभरमित्याह स्तोममेवास्मैत्याह प्रजा वै पशुम उभे लोकं वृजामेव पशोमिवं लोकमुपैयेत्यस्य प्रत्नामनुजितमित्याह सुवर्गो वै लोकः प्रत्नः सुवर्गमेव लोकगुं समारोहत्यग्निर्मोर्धादिवः कगुदित्याहमूर्धानमेवैमं समानाङ्कोद्यथो देव लोकादे ्रततिष्ठत् ध प्रथमो धारिधाुभावामिन्द्राग्निहुवध्यादित्याहौ बलमेवा बरुन्धे यन्ते योने ऋद्विधित्याः सवो वैरजोनेवावरुन्धे षड्भिरुपतिष्ठते षड्वा ऋतव ऋतुष्वेव तिष्ठते षड्भिरत्तराभिरुपतिष्ठते द्वादश संपद्यन्ते द्वादश समासा संवत्सर देव प्रतिष्ठति यथा वै पुरुषोग्निराहितोसरस्य परस्तादाग्निपापमानेपतिष्ठते जनमस्य दि ताजेव तदा जन्दा अग्ने जन्मे देहेत्याह शेषवच्चोदा अग्नेशि वच्चो मे देहेत्याहवचोदा चेषतनुवा अग्नेसि धनुवं मे माहेत्याहतनुवा शेषोग्ने जन्मे धनुवा गोनन्दन् महाभृणेत्याह जन्मे प्रजायश्व स्वस्ति ीदेव्या हराद्यै चत्रावसुरवश्चैवा देतस्यै पुराब्राह्ना अभे सुजष्टिवावरुन्धरिन्धानास्त्वा ेतच्छदग्ने गजमाघभ्या द्रुजा प्रहरजस्त्रत्या अछम् वट्कादकुंसन्तमग्ने सौर्यस्य वर्चसा गच्छ इत्याहेतत्वमसेदमहम् भोजासमेतदाहत्वमग्ने सौर्यवर्जा असेत्याहासिषमे वेदामाशास्ते पश्यामि प्रजा अहमित्याहया वन्देव ग्राम्याः पशवस्तानेवा वरुन्भेभस्तां भो वक्षेदेत्याहां भोः महोवा भक्षेदेत्याह महो भक्षेरेत्याहसहोदारोर्जं वक्षेरेत्याहोर्जोमित्याहवशभो वैरेव स्थेतोपघातेत्याह ध्रुवा देवैः कुरुतष्टखचिद्वान्योह्यसुचिदन्यस्य गं हि दा विश्वे निधिपै वै धत्ते प्रसुचितमेनं गुरुदे प्रवायेशोः स्माल्लोकास्यपतेज आहवमुपतिष्ठते गार्ह मध्यमुपतिष्ठतेऽस्मिन्नेव लोके प्रचतिष्ठतथो गार्हमत्यादेव निन्धुते गायत्रेभिरुपतिष्ठते तेजो वै गायत्री तेजदेवात्मं धत्ते चोजेदं निजमन्वासं धत्ते गार्हमध्यं वादो वीराः प्रजायन्ते एवं विद्वान् भग्मापश्य देत्यामास्ते तत्सवित्याह प्रसोच्चे सोमानस्मरणमित्याहसामपे समेवावरुन्धे कृणहे ब्रह्मणस्पथमित्याह ब्रह्मवत्यसमेवावरुन्धे कदाचलस्तरे रसेत्याहनस्तरे गुण्ड एवं विद्वानग्पतिष्ठते परित्वाग्ने पुरं परिमित्याहे वेदं परितथास्कन्धायाग्ने गृहपदगित्याह यथा जजुरे वैदक्षतगन्धिमावित्याह सतं त्वा हे मुन्ताधिषे जय दिवा वैददाः पुत्रस्य नाम गृह्मात्यनादमे वैदं करोदितामाशिषमाशासेन्दवे ज्योतिष्मधे जा पुत्रो जाजस्य त्येतस्मेवास्य ब्रह्मवर्चसे पुत्रो जायते तामासा से मुष्मै ज्योतिष्मतीमिति ब्रोजाद्यस्य पुत्रो जातस्यात्येजदेवास्मिन् ब्रह्मवर्तसम् दधाति अग्निहोत्रञ्जुहो जगदेव किञ्च गजमानस्य स्वन्तस्यैव तद्रेतसिञ्चति वा अग्निरथौलम् जगदादहजितास्ततो भोजसे प्रजायम् तेजत्सायञ्जुहो दिनदेव तत्र जायत देश वैदेव स्पष्टा देवसिद्धस्य बहु सूपाणि विकलादिसप्रायते स्वश्वं विद्वानग्निमुपतिष्ठते हर्देवानामासीद्वा त्रिरसुराणां ते सुरायद्धेवानां भित्थं वेद्यमासीत्तेन सह रात्रिं प्राभिसन्ते देवाहीना देव स्यन्नाढे शवहिमेवस्तवा वसनस्तुनः पशोन् पुनर्तुतो रात्रिवा पशून् वित्त्वा कामागुम् अकुर्वेवम् विद्वान् अग्निमुपदिच्छते समान्धवत्यादित्यो वा अस्माकादमल्लोकभयत् सोमं लोकम् गत्वा निगत्य मृत्योरपिधे मृत्युसंयुतस्तुतस्वर्गं लोकं गमयिष्यति वर्गं लोकमगमयद्य देवं विद्वानग्निमभतिष्ठते सुवर्गमेव लोकमेति सर्वमाजुरेत्य ै श्रेयानभ्यारोढः कामयते har shaad mein jo har har har kya hai मुपतिष्ठते तस्मादपस्थेरः प्रजापतिः पशो ने सुष्ठा अहोरात्रेरुपतिष्ठते स्वमेव तदन्विच्छ ्यस्तेत्याहृजो हर हरहरुपतिष्ठतृो वा अग्न्यम् प्रत्यमुपतिष्ठते प्रत्ययनमोषधिजः परा विश्वम् प्रजया पशुभिरेतिकवाचल्योपतिष्ठेतनैनम् प्रत्योषदिनविश्वम् प्रजया पशुभिरेति मम नाम प्रसमञ्जारवेदः पिता माता च दधतुर्यदग्रे त्वम् विभे पुनरामरेथोस्तभाहन्नाम विफलाग्ने तव च जातमेथो भासशीतिव विवसानौ पुनस्ते नभोग्नदे प्रतिबद्धा विषाढो न्यबृहद्वजा विश्वजित्सहञ्ज श्रेष्ठोगम् धर्मः गोप्यदारो अग्ने देवास्त्वामाहुतदस्त्वद्विवाचनाः सम्मायुषा सङ्गौपत्येन माधाः अयमज्ञ श्रेष्ठतमोऽयम् भगवत्तमोजगम् सहस्रसा नमः अस्मास्तु सुवीर्यम् जुषतामाज्यम् विच्छन् यज्ञकंसमिवम् दधातु या इष्टावषसो निमृजश्च ताः सम् दधामि हविषाखितेन पयस्वदेशपयस्वद्वेरुधाम्पयः अपाम्पयसो जस्ते नमामिन् रसुसृज अग्ने व्रतपदे व्रतञ्जलिष्यामि दच्छके जम् तम्मे राज्यताम् आज्ञगम् हतारहतगम् हे देवान यज्ञयानिहजा आयम् तु देवाः सुमनस्य माना भजम् तु देवाः विशोमे अस्य कस्माजुनक्तिसत्त्वाजुनक्तुजानि घर्मे कपालान्यप चिन्वन्य मेधसः ओष्णस्तान्य विभृदयन्द्रपायोऽपिमुञ्चताम् अभिन्नो घर्मो चेददा निर्यथास्तद घन् पुनः युद्धो वेदिः परिजगश्च सर्वे जज्ञस्या सञ्चनन्ति त्रयस्रगम् सप्तम् तबोले विदेव यमै जज्ञ स्वधजा ददन्ते दे देशाः छिन्नम् रत्येतद्दथा विश्वाः घर्मो देवाकुम् अप्येतु नरोनुभूर्त्या प्रजातुपरावतः अग्निदुः नवाहसा हृतावानम् वयेश्वानरमृतस्य ज्योतिषस्पतिम् अजस्रम् धर्ममीमहे वयेष्वानरश्च धुंसनाभ्यो बृहदरिणालेखस्वपस्यजा कविः उभावितरामहयम् न जायताग्निर्जावा पृथिवे भूरिनेतसा पृष्टो दिवृष्टो अग्निः पृथिव्याम् पृष्टो विश्वामोचेरा वेश्वानरः सहसा दृष्टो अग्ने स नाधिभास ऋः जातो जनग्ने भुवनाव्यः पशुन्न गोपायः परिज्ञा वेश्वानरब्रह्मणे विन्दकातिर्योजम् पाद स्वस्तिभिः सदा नः देवाकुम् अभिशस्तेनमुञ्च वैश्वानरजात वेदो महित्वा अस्माकमग्ने मघवत्सुधानामि क्षत्रमजलुम् सुवीर्यम् भगन्धजयमशजनकुम् सहस्रणम् वैश्वानरवाजमग्ने तभोतिः वैश्वादरस्य समतोऽस्यामराजाहिकम् भुवनानामभिस्मेः यो जातो विश्वमिदम् वितष्टे वयेष्वानरो यतते सूरिण अवदेहेणो वरुण नमोऽभिनवजज्ञेऽभिरेमहेहविद्भिः क्षयन्नस्मभ्यमसुरप्रजेतो राजन्येनागुम् सश्रथः कृतानि उरुत्तमम् वरुणवासमस्मदवासमम् विमध्यमज्ञश्रथाय तथा बलमादित्यव्रते न वानागसोलित स्याम अधिक्राण्डो अकारिषम् जष्णालश्वस्य वाजिनः सुरभिलमुखागरतृण आयोगुंसि दारिषते आदधिक्राश्चमसा पञ्चकृष्टे सो आतो न उपकन्दना यावः शर्म शशमानाय सन्ति पृधातो निदासुषय गच्छताधि अस्मभ्यम् तानि मरुतो वियन्तो धत्तषण सुवीरम् अदितिर्न वरुष्यत्वदिः शर्म यच्छतु त्रिक्षत्रामचरम् ते मरोचेगम् सुशर्मा नमदिगम् सुप्रणीतिम् सुत्रामाणम् रचवेञ्जामनेहसगम् सुशर्मा न मदिकम् सुप्रणीतिम् दैवेन्नावग्यस्वरित्रामनागसमस्रमम् देवारुहे मास्वस्थे सुमारुहगं सदागम् सदस्थ्या अच्छिद्राम् पाणजिष्णुम् Oh